अश्मा च समे मे मृत्तिका मृत्तिका च समे मे गिरयः गिरयश्च समे मे पर्वताः पर्वताश्च समे मे सिकताः सिकताश्च समे मे वनस्पतयः वनस्पतयश्च समे मे हिरण्यम् हिरण्यम् च समे मे अयश्च समे मे सीसम् च समे मे समे मे श्यामम् समे मे लोहम् च समे मेऽग्निः अग्निश्च समे म आपः आपश्च समे मे विरुधः विरुधश्च समे म ओषधयः ओषधयश्च समे मे क्रष्टपच्यम् बाच्यं। पृष्टपच्यम् च कृष्टपच्यमिति कृष्ट पथ्यम् समे मे कृष्टपच्यम् अकृष्टपच्यम् च अकृष्टपच्यमित्यकृष्ट पच्यम् चमे मे ग्राम्याः ग्राम्याश्च समे मे पशवः आरण्याः आरण्याश्च स यज्ञेन यज्ञेन कल्पन्ताम् कल्पन्ताम् वित्तम् वित्तम् च समे मे वित्तिः वित्तिश्च समे मे भूतम् भूतम् च समे मे भूतिः भूतिश्च चमे मे वसो वसु च क्षमे मे वसतिः वसतिश्च समे मे कर्म कर्म च कमे मे शक्तिः चमे समे मेऽर्थः अर्थश्च चमे म एमः ए, ए समे म इतिश्च समे मे गतिः गतिश्च समे म इति मे अस्मा च समे मे मृत्तिका